हरि ओम् श्रीसीता रामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे षड्विंशति सर्गः सारणेन रावणम् प्रति पृथक् पृथक् वादयूत्पतीनां परिचयदानम् तद्वचः सत्यमक्लीबम् सारणेनाभिभाषितम् निशम्य रावणो राजा प्रत्यभाषत सारणम् यदि माम् अभियुञ्जीरन् देवगन्धर्वधानवः नैव सीतामहं दद्याम् सर्वलोकभयादपि त्वं तु सौम्य परितृस्तु हरिभिः पीडितो भृशम् प्रतिप्रदानमद्यैव सीताया साधु मन्यसे नाम सपत्नो समरे जेतुमर्हति इत्युक्त्वा पुरुषम् वाक्यम् रावणो राक्षसाधिपः आरुरोह तथा श्रीमान् प्रासादम् हिमपाण्डुरम् बहुताल रावणो रावणोऽथ निजृक्षया ताभ्याम् चराभ्याम् सहितो रावण क्रोधमूर्छितः पश्यमानम् समुद्रम् तम् पर्वता च वनानि च ददर्शे पृथ्वीदेशम् सुसम्पूर्णं प्लवङ्गमयि तदपारम्बसह्यं च वानराणाम् महाबलम् आलोक्य रावणो राजा परिपासारणम् एषां के वानरा मुख्या केशूरा के महाबलः के, महा के पूर्वम् अभिवर्तन्ते महोत्साहसमन्ततः केषाम् शृणोति सुग्रीव के, के वायूथः पयूथपा सारणा चक्ष्वमे सर्वम् किम् प्रभाव प्लवङ्गमः सारणो राक्षसेन्द्रस्य वचनम् परिपृच्छतः अभभाषेऽथ मुख्यज्ञो मुख्यान्तत्रवलोकतः एष यो भीमुखो लङ्काम् नर्दन् तिष्ठति वानरः यूथपानां सहस्राणां शतेन परिवारितः यस्य घोषेण महता स्वप्राकारा सतोरणा लङ्का प्रतिहता सर्वा सशैलवनकानना सर्वशाखा मृगेन्द्रस्य सुग्रीवस्य महात्मनः बलाग्रे तिष्ठते वीरो नीलो नाम एष यूतपः बाहु प्रगृह्य पद्भ्याम् महिम् गच्छति वीर्यवान् लङ्कामभिमुख कोपात् अभीक्ष्णम् च विजृम्भते गिरिशृङ्गप्रतिकाश पद् न किञ्जल्कसन्निभः स्फोटयत्यति संरब्धो च पुनः पुनः स्वरन्ति प्रतिशोदश एष वा नरराजेन सुग्रीवेणाभिषेचितः युवराजोऽङ्गदो नाम त्वामाभयति संयुगे वालिन सदृशो पुत्रे सुग्रीवस्य सदा प्रियः राघवार्थे पराक्रान्त शक्रार्थे वरुणो यथा एतस्य सा सर्व यद् दृष्टा जनकात्मजा हनुमता वेगवता राघवस्य हितैषिणा बहूनि वा नरेन्द्राणाम् एष यूथानि वीर्यवान् परिगृह्याभियाति त्वाम् सेनानीकेन मर्दितुम् अनुवाली सुतस्यापि बलेन महतावृतः वीर तिष्ठति ते तु हेतु अयम् नलः ये तु विष्टभ्यगात्राणि क्रीडयन्ति नदन्ति च उत्थाय च विजृम्भन्ते क्रोधेन हरिपुङ्गवः एते दुष्प्रसः घोरा चण्डाचण्ड पराक्रमः अष्टशतसहस्राणि दशकोटिशतानि च यैनम् अनुगच्छन्ति वीराश्चन्दनवासिनः एषे वा शंसते लङ्काम् वेनानीकेन मर्दितुम् श्वेतोर्यतु सङ्काश चपलो भीम बुद्धिमान् वानरः शूर त्रिशुलोकेषु विश्रुतः पूर्णम् सुग्रीवमागम्य वानरः विभजन् वानरिं अनेकानि प्रहर्षयन् यप्राय पुराय गोमती तीरे रम्यम् पर्येति पर्वतम् नाम्ना सुन्दरोचनानाम् नानानग ना युतो गिरि तत्र राजम् कुमुदो नाम यूथपः योषौ शतसहस्राणि सहर्षम् परिकर्षति यस्य वाला दीर्घलाङ्गुलमाश्रितः ताम्रा पीता सिता श्वेता प्रकीर्णाघोरदर्शनः अधीनो वानरचण्डे सङ्ग्रामम् अभिकाङ्क्षति एषोऽप्याशंसते लङ्काम् सेनानीकेन मर्दितुम् यत्त्वे च कपिलो दीर्घ केसरः निब्रूतः विधक्षन्निव चक्षुषा विञ्ज्यम् कृष्णगिरिम् सह्यम् पर्वतम् च सुदर्शनम् राजन् सतदमध्यास्थे सरम्भो नाम यूथपः शतं शत सहस्राणाम् त्रिंशच्च हरिपुङ्गवः यम् वानरा घोरा चण्डाचण्ड पराक्रमः परिवार्यानुगच्छन्ति लङ्काम् मर्दितुमोजसा यत् कर्णो विवृणुते जुम्भ्रते च पुनः पुनः न च संवीजते मृत्यो न च सेनाम् प्रधावति प्रकम्पते च रोषेण तिर्यक् च पुनरीक्षते पश्येलाङ्गुलविक्षेपम् खेडत्येष महाबलः भाजवो वीतभयो रम्यम् सर्वेय पर्वतम् राजन् सद् शरभो नाम यूथपः एतस्य बलिनः सर्वे विहाराणाम यूथपः राजंशत् सहस्राणि चत्वारिंच तथैव च यस्तु मेघ इवाकाशम् महानावृत्य तिष्ठति मध्ये वा नदवीराणाम् वेरीणामिव सन्नादौ यस्ते श्रूयते महान् घोषे शाखा मृगेन्द्राणाम् सङ्ग्रामम् अधिकाङ्क्षताम् एष पर्वतमध्यासे परियात्रम् अनुत्तमम् युद्धे दुष्प्रसहो नित्यं फनसो नाम यूथपः एनम् शतसहस्राणाम् शतार्धम् पर्युपासते यूथपा यूथप श्रेष्ठम् येषां यूथा यस्तु भीमाम् प्रवल्गन्दिम् चम तिष्ठति शोभयन् स्थिताम् तीरे समुद्रस्य द्वितीय इव सागरः एष दश विनतो नाम यूथपः पिबञ्चरेति यौवेणाम् नदीनाम् उत्तमाम् नदीम् षष्टिशतसहस्राणि बलमस्य पुलभङ्गमः त्वामाह्वयति युद्धाय क्रोधनो नाम वानरः विक्रांता बलवन्तश्च यथा यूथानि भागश्च यस्तु वैरिकवर्णाभम् क्वपुपुष्यति वानरः अवमत्य सदा सर्वान् वानरान् बलदर्पितः गवयो नाम तेजस्वी त्वां क्रोधदभिवर्तते एनम् शतसहस्राणि सप्तति पर्युपासते एषैवाशंसते लाम् सेनानीकेन मर्दितुम् एते दुष्प्रसहा वीरा येषाम् सङ्ख्या न विद्यते यूथपा यूथप श्रेष्ठः तेषाम् भागशः इत्यार्थे श्रीमद् रामायणे वाल्मीकि अधिकारी युद्धकाण्डे षडविंशति सर्गः श्रीसीतारामचन्द्रार्पणमस्तु